अथ चतुस्त्रिंशः सर्गः कृतो द्वाहे गते तस्मिन् ब्रह्म दत्ते च राघव अपुत्रः पुत्रलाभाय पौत्रीमिष्टिमकल्पयत् इष्ट्याम् तु वर्तमानायाम् महीपतिम् उवाच परमोदारः कुशो ब्रह्म सुतस्तदा पुत्रस्ते सदृशः पुत्र भविष्यति सुधार्मिकः गाधिम् प्राप्स्यसि तेन त्वम् कीर्तिम् लोके च शाश्वती एवमुक्त्वा कुशो नाम कुशनाभम् महीपतिम् जगामाकाशमाविश्य ब्रह्मलोकम् सनातनम् कस्यचित्वथ कालस्य कुशनाभस्य धीमतः यज्ञे परमधर्मिष्ठो गाधिरित्येवनामतः स पिता मम परमधार्मिकः कुशवंशप्रसूतोऽस्मि कौशिको रघुलम्दना पूर्वजा भगिनी चापि मम राघवसुव्रता नाम्ना सत्यवती नाम ऋचीके सशरीरागता स्वर्गम् भर्ता रमनुवर्तिनी कौशिका परमोदारा प्रवृत्ता च महानदी दिव्या हिमवन्तमुपाश्रिता लोकस्य हितकार्यार्थम् प्रवृत्ता भगिनी मम ततोऽहम् हिमवत्पार्श्वे वसा विनियतः भगिन्याम् स्नेहसंयुक्तः कौशिक्याम् रघुनन्दना सा तु सत्यवती पुण्या सत्ये धर्मे प्रतिष्ठिता पतिव्रता महाभागा कौशिकी सरिताम् अहम् हि नियमाद्रामहित्वा ताम् सिद्धाश्रममनुप्राप्तः सिद्धोऽस्मितव तेजसा एषा राममोत्पत्तिः स्वस्य वंशस्य कीर्तिता देशस्य हि महाबाहो यन्माम् तम् परिपृच्छसि गतोर्धराद्रः काकुत्स्थकथाः कथयतो मम निद्रामभ्ये हि भद्रन्ते मा भूद्विघ्नो ध्वनिहनः निष्पन्दास्तरवः सर्वे निलीनामृगपक्षिणः नैशेन तमसा व्याप्ता दिशश्च रघुनम् शनैर्विसर्ज्यते सन्ध्या नभो नेत्रैरिवावृतम् नक्षत्रतारागहनम् ज्योतिर्भिरवभासते उत्तिष्ठते च शीताम् शुःशशीलोकतमोऽनुदः ह्लादयन् प्राणिनाम् लोके मनाम्सि प्रभया स्वया सर्वभूतानि प्रचरन्ति यक्षराक्षससङ्घाश्च रौद्राश्च पिशिताशनाः एवमुक्त्वा महातेजा विररामहामुनिः साधु सर्वे मुनयो ह्यभ्यपूजयन् कृशिकानामयम् वंशो महान् धर्मपरः सदा ब्रह्मोपमा महात्मानः विशेषेण भवानेव विश्वामित्रमहायशः कौशिकी सरिताम् श्रेष्ठा कुरो द्योतकरी तव मुदितैर्मुलिशार्दूलैः प्रशस्तः कुशिकात्मजः निद्रामुपागमच्छ्रीमानस्तम् गत इवांशुमान् सह सौमित्रः किञ्चिदागत विस्मयः प्रशस्य मुनिशार्दूलम् निद्राम् समुपसेवते इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुस्त्रिंशः सर्गः